मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं ट्वेण्टि फोर् पृथु यशोवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच ध्रुवस्यान्वयसम्भूदोङ्गस्तेजस्वीमहीपतिः धर्मात्मा सर्वमान्यश्च पिधृवत्पालको भवत मृत्युकन्याभवद्भार्या राज्ञस्तस्य महात्मनः तस्यां तस्मात् समुत्पन्नः पुत्रो वेन सुदारुणः तं पिता शिक्षयन् श्रान्दो न साधुरभवत्सुतः राज्यं त्यक्त्वा वनं राजा दुःखयुक्तो जगामः तदो राजविहीने च देशे चोराः प्रबभ्रमुः तैर्लुण्ठितं जनानां स्म सर्वस्वं यत्र तत्र हि प्रजासर्वाभयोद्विघ्नान् ब्राह्मणान् शरणं ययुः ब्राह्मणैराज्य आसिक्दः स वेनः पैतृके ततः सराज्यं प्राप्य दुर्दर्शोरान् हत्वा समन्ततः राज्यं चकारदेशेषु कम्पयन् वसुधातलं नयमार्गं परित्यज्य यदेच्छाचारको भवत तेन वर्णाश्रमाचारसंयुधा दुःखिता पुनस्ते तापसां स्थान् वै शरणं जग्मुरादराद तापः सैर्वारिदो वेनस्तानुवाच द्विजोत्तमान् वेन उवाच अहम्पूज्यश्च सर्वेषां पालको नात्र संशयः मां भजद्वमुनीन्द्रा योगक्षेमकरं सदा तस्य तद्वचनं श्रुत्वा कुपिता ब्राह्मणास्ततः शापेन मारयमासुस्तं नृपं नयवर्जितम् तस्याङ्गं वाममेवादौ ममधुर्नृपभेदवे तस्मात् क्रूरः समुत्पन्नस्य पापमयो नरः ह्रस्वकाय श्यामवर्णश्मश्रुलः पिङ्गलोचनः तं दृष्ट्वा ब्राह्मणा प्रोचुर्निषीदे प्रजापदे तदोनिषादनामसौ जातस्तस्मै वनान्तरे स्थानं ददुर्विजश्रेष्ठा निषादास्तत्समुद्भवाः पुनश्च दक्षिणाङ्गं ते ममधोद्विजसप्तमाः वेनस्य दम्पती तस्मात् समुद्भूतौ महौ जसौ विष्णो कलायुतौ साक्षात् ब्राह्मणान्ये मधुःपुरा ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि प्रधु नामा मही पालो विख्यादो पृथुनामा विख्याभू मंडले स्वनत सावर्तक संवर्धिता लोका वर्णाश्रमयुता मुद्दे देशे यसस्कृता गे कियद काले वै लोका अन्न विवर्जिता क्षुधया पीडिता सर्वे तं नृपं शरणं ययुः वेनस्य धर्मभावेन भूम्या सर्वं समाहृतं पुनर्दादुम वै धर्मरूपे नराधिपे लोकानां दुःखमाकर्ण्य कुपितोसौ नराधिपः विचार्य धनुरादाय शरं श्रेष्ठं युयोज च भूमिं हन्तुम् मनश्चक्रेह्याकर्णाकर्षितं धनुः यावद्बाणं सचिक्षेप तावद्भीदा वसुन्धरा गोरूपेण भयोद्विग्ना यत्र तत्र पलायत आतबाणो नृपः पश्चाद्ययौ यम इवापरः शरणं न पतद्भूमिस्तमेव शरणं ययौ उवाच प्राञ्जलिर्भूत्वा नृपं कम्पसमन्विता स्त्रियं मां गां कथं हंसि भूमिपालवसुन्धरां शरणागदरूपां ते रक्षत्रकुलोद्भव भूमेर्वचनमाकर्ण्य तां जगाद नृपोत्तमः शृणुत्वा मारयिष्यामि मच्चासनपराङ्मुखीम् जीवितुम् चर्चसि प्राज्ञे तदान्नम् विविधम् धरे कुरुप्रकटरूपम् त्वम् सर्वकालम् न संशयः तदस्थम् विनयम् कृत्वा सा जगादवसुन्धरा मया ग्रस्ता समग्राया ओषध्यश्च नृपात्मज भक्षितास्ताः पुनर्दातुं कथं शक्ता भवामि भोः अतस्त्वं मां समादौ कुरु पार्थिव सप्तम गोरूपासं स्थिता भूप वत्सं कृत्वा स्वभावजं सकला प्रददाम्यहम् दोहककल्प्यदां शीघ्रं तदा सर्वं शुभं भवेद अन्यथा मां महीपाल हनिष्यसि वृथा कथं तस्या वचनमाकर्ण्य धनुष्कोट्या नृपोत्तमः पर्वतांश्चूर्णयामास स मां भूमिं चकारः पुरग्रामादिकानां तु रचना रचिता ततः तेनैव पृथुना दक्ष यथा योग्यं धरातले तदा दिर्नगराद्यानां रचना संप्रवर्तिता। पुत्रीत्वे स धरां चक्रे पृथ्वी नाम्नी तदो भवत मनुवत्सं तदकृत्वा दोहकश्चाभवत् भवत्स्वयं। षड्रसान्न मह्यं दुग्धं दुदोह नृपसत्तमः तद सर्वे त्रिलोकस्ता दुदुहुस्तां वसुन्धरां स्वस्वान्न मय दुग्धं ते जगृहु परमादृदाः ब्रह्माणं वेदरूपं सुवत्सं कृत्वा बृहस्पतिः दोको दुग्धमादाय संस्थितो विकतज्वरः रुद्रं वत्सं ततः कालाग्नि दोहकः पिशिदात्मकं कालाग्निरुद्रसंज्ञश्च हरजीवनं विष्णुं वत्सं समादाय यजमानश्च दोहकः यज्ञाधारमयं दुग्धं दुदोह खलु सूर्यं वत्सम् चकारापि दोहको ध्रुव आदरात् ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः शेषं वत्सम् च सङ्गृह्य दुदोहापि च वासुकिः सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः शिवं वत्सम् प्रकल्प्यैव दोहको नन्दिकेश्वरः विद्यात्मकम् अहद्दुग्धम् दुदोह गदमत्सरः एवं सर्वेच च दुदु गां पृधुभावितां चराचरमया जीवा ईश्वराश्च प्रजापदे पृदुस्तां पूजयामास धरणीं धरणी प्रियः पुत्रीत्वे पारिदाकर्षात् सास्तिदा मुदिदा तथा धरित्रीं स पृथु पृथु पराक्रमः राज्यं चकारनिधिज्ञ पृथिव्या मे कराष् स्वयं ततो यज्ञां चकारासौ शदसङ्ख्यान् महाबलः अश्वमेधाभिधान् राजा भूरि दक्षिणसंयुतान् तस्य यज्ञे स्वयं ब्रह्मा विष्णुशङ्कर एव च इन्द्राद्या आययु सर्वे गन्धर्वाद्या महामदे ऋषयः कश्यपाद्याश्च शेषाद्या नागमुख्यकाः जनानाविध जग्मोत्सास्त्रीकाश्च विशेषतः अन्ध्ये यज्ञे समारब्धे भृष्यं। जडाचीरधरो भूत्वा तस्याश्च सहसा तस्य पुत्रेण सन्दृष्टस्तपस्वीति च मोहितः हयं हा। त्यक्त्वा भयोद्विघ्नोन्तर्धानं तु चकारसः पुनरस्तिधरो भूत्वा भस्मनालेपकारकः जहारश्वं तथा राजपुत्रेण न सताडिदः एवं षड्वारमश्वंस तदस्तं हुमुद्युक्तः पृथु तं ब्रह्मा सान्त्वयामः सा महेन्द्रं न जखानः एकोनशतयज्ञांश्च चक्रे वै तेजसायुधः ब्रह्मणा नोदितः साक्षादिन्द्रस्तं प्रणनामः पृथुर्वैरं समुत्सृज्य देवेन्द्रं तं प्रसस्वजे सकला पूजितास्तेन देवाद्या स्वस्थलं ययुः सोऽभिराज्यं स्वधर्मस्तश्चक्रे वै पालयन् प्रजाः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पृथु वर्णनं नाम चतुर्विंशोऽध्यायः ओम्